श्रीहरये नमः अथ षष्ठोऽध्यायाः श्रीशुक उवाच एवं स्तुतः सुरगणै भगवान् हरिरीश्वरः तेषामाविरभोत्राजन् सहस्रार्कोदय द्युतिः तेनैव सर्वे देवा प्रतिहते नापश्यन् ना कन्दिश्रोणिम् आत्मानं च कुतो विभुं विरिञ्चो भगवान् दृष्ट्वा सख सर्वेण ताननुं स्वच्छां मरकतश्यामां कञ्च गर्भारुणेक्षणां तप्तहे मावधातेन दसत्कौशेयवाशशां प्रसन्नचारु सर्वाङ्गीं सुमुखीं सुन्दरः भ्रुवम् महामणिकिरीटेन केयोराभ्यां च भूषितां कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजां का काञ्चीकलापवलयकारनो पुरशोभितां कौस्तुभाभरणं लक्ष्मीं विप्रतिं वनमालिनीं सुदर्शनादिभिस्वास्त्रै मूर्तिमद्भि उपासितां तुष्टावदेव प्रवरः परं सर्वान् रगणैः साकं सर्वाङ्घैः अवनितं गतैः ्रह्मोवाच अजाय जन्मस्ति संयमाय अगुणाय निर्वाणसुकार्णवाय अनोरणीम्ने परिगण्यधाम्ने महानुभाय नमो नमस्ते रूपं तथैवत् पुरुषर्षबेजं श्रयोर्तिभिर्वैदिकतान्त्रिकेण योगेन धातः सहनस्त्रिलोकान् पश्यामि अमुष्मिन्नुकविस्मूर्तो य्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदितमात्मतन्त्रे त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परस्परस्मात् त्वं माययात्माश्रयया स्वधेयं निर्माय विश्वं तदनुप्रविष्टः पश्यन्ति युक्ता मनसा मनीक्षिणो गुणव्यवायेभ्य गुणं विपश्चितः यदाग्निमेतश्च मृतं च घोषो भुव्यमम्भूद्यमनी च अधियन्ति हि त्वां गुणेषु कवयो वधन्ति तं त्वां वयं नाथसमुज्जिहानं सरोजनाप अतिचिरेप्सितार्थम् दृष्ट्वा गता सर्वे गजाद्धवार्ता इव सत्वं विधत्वा किल लोकपाला वयं समागदास्ते पाधमूलं समागतास्ते बहिरन्तरात्मन् किं गिरित्रश्च सुराधयो दक्षाधयोग्नेरिव केतवस्ते किं वा विधा मे स पृथक् विभाता विधस्त्वसं नो द्विजदेवमन्त्रं त्रिसुक उवाच एवं विरिञ्जादिभिरीटितस्तत् विज्ञाय तेषां हृदयं तथैव जघात जिमूतगपीरया गिरा भक्ताञ्जलिन् संवृतसर्वकारकान् एक एकेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः विहर्तु कामस्थानाः समुद्रोन्मदनादिभिः श्रीभगवानुवाच हन्त ब्रह्मन्नहो शम्भो हे देवा शृण अवहिताः सर्वे श्रेयावश्यात्यथा सुराः या दधानवधैते यत्तावत् सन्धिर्विधीयता काले न अनुगृहीतैतैर्यावत् वो भव आत्मनः अरयोभिः सन्धेया सति कार्यार्थगौरवे अहिमूषकवद्धेवो ह्यर्थस्य पदवीं मृतोत्पादेन यन्थक्रियताम् अविलम्भितं यस्य पीतस्य वैजन्तो मृत्युग्रस्तो मरो भवेत् क्षिप्त्वा शिरोधौ सर्वं विरुतृण लधौषधीहे मन्तानं मन्धरं कृत्वा नेत्रं कृत्वा तु वासुके सहायेन मया देव निर्मन्धत्वम् अधन् क्लेशभाजो भविष्यन्ति दैत्या यूयं बलग्रहाः यूयं तदनुमोधत्वं यदिच्छन्त्यशुराशुराः न संरम्भेण नभेतव्यं सर्वेऽर्थास्सान्त्वयायथा न लोभक्कार्यो नभोजातु विषाज्झलति श्रीसुख उवाच इति देवान् समादिश्य भगवान् पुरुषोत्तमः तेषामन्तर्धते राजन स्वच्छन् दगतिरीश्वरः अतस्तस्मै भगवते नमस्कृत्पितामहः भवस्य जग्मतुस्वं स्वं धापो युपेयोर्भलिं सुराः दृष्ट्वा रेणभ्यसंयत्ताञ्जातशोभान् स्वनायकान्षेध दैत्यराट् ते वैरोचनीमासीनं गुप्तं चासूरयूतपैः श्रिया परमया जुष्टं जिताशेषम् उपागमन् महेन्द्रश्लक्ष्मया वाचा शान्त्वयित्वा महामतिः अभ्यभाषत तत्सर्वं सुक्षितं पुरुषोत्तमात् तधरोचत दैत्यस्य तत्रा सम्भरोरिष्टनेमिश्च ये च त्रिपुरवासिनः ततो देवासुरा कृत्वा संवितं कृतसौहृदाः उद्यमं परमं शक्रो अमृतार्ते परन्तपं ततस्ते मन्धरगिरिं ओजसोत्पाट्य धुर्मदा न दन्त निन्यो शक्ता परिगभाहवहा दूरभारोध्व हश्रान्तशक्रवैरोचनाधयः अपारयन्तस्तम्भोढुं बिवसा विजहूपति निपतं ूर्णयामास महता भारेण कनकाचलहा भग्नमनसो भग्नबाहूरुकन्धरान् विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः गिरिपातविनिष्पिष्टान् विलोक्यामरधानवान् ईशया जीवयामास निर्जरान् निर्व्रणान् आरोप्य गरुडे हस्तेनैकेन आरुह्य प्रययौ वब्धिं सुरासुरगणैर्व्रतः अवरोप्य गिरिं स्कन्धात् सुपर्णः पतधाम्बरः ययौ जलान्त उदृज्य हरिनासविसर्जितः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे अमृतमदने मन् मं... मन्दराचलानयनं नाम षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज जय